हरि श्री श्रीसीतारामचन्द्राभ्य नमः अथ श्री अध्यात्मरामायणे बालकाण्डे षष्ठः सर्गः श्रीमहादेव उवाच विश्वामित्रोऽप्रह राघवं सह लक्ष्मणं गच्छामो वत्समिथिलां जनकेनाभिपालिताम् दृष्ट्वा क्रतु वरं पश्चात् अयोध्यां गन्तुमर्हसि इत्युक्त्वा इत्युक्त्वा प्रयोगङ्गाम् उत्तर्तुं सः राघव तस्मिन् काले नाविकेन निषिद्धरघुनन्दनः नाविक उवाच कालयामि तव पादपङ्कजं नास किमन्तरं मानुषी कर्णचूर्णमस्ति ते पादयोरिति कथा प्रथीयसि पादाम्बुजं ते विमलं हि कृत्वा पश्चात्परं तीरमहं नयामि नो चेत् तैः से युवतीमलेन्द स्वाचेद्विभो विद्धि कुटुम्बनि इत्युक्त्वा कालितो परं तीरं कौशिको रघुनाथेन सहितो मिथिलां विदेहस्य पुरं प्रात ऋषिवाटं समाविशत् प्राप्तं कौशिकमाकर्ण्य जनकोटिमुदान्वितः पूजा द्रव्याणि संगृह्य सोपाध्याय समाययो दण्डवत् पूजयामास कौशिकम् पप्रच्छ राघवो धृष्ट्वा सर्वलक्षणसंयुतौ द्योतयन्तो दिश सर्व चन्द्रसूर्यो इव परौ कश्चेतो नरशार्दूलौ पुत्रो देवसुतोपमौ मनः प्रीतिकरो मेर्य नरनारायणो इव प्रत्युवाच मुनिप्रीतौ हर्षयन् जनकम् तदा पुत्रो दशर्षस्येतौ भ्रातरौ रामलक्ष्मणौ मखसंरक्षणार्थाय मया नीतोऽपितु पुरात् आगच्छन् राघवो मार्गे ताटकां शरेणैकेन हम् नोदितो मेति विक्रमः ततो ममाश्रयं गत्वा मम यज्ञविहिंसकान् सुबाहु प्रमुखान् हत्वा मारीचं सागरे क्षिपेत् ततो गङ्गातटे पुण्ये गौतमस्याश्रमम् शुभम् गत्वा तत्र शिलारूपा गौतमस्य वधुस्थिता। पादपङ्कजसंस्पर्शात् कृता मानुषरूपिणी दृष्ट्वाल्यां नमस्कृत्य तया सम्यक् प्रपूजितः इदानीम् द्रष्टुकामस्ते गृहे माहेश्वरम् धनुः पूजितम् राजभिः सर्वैः दृष्टम् इत्यनुशुश्रुवे अतो दर्शय राजेन्द्र शैवम् चापमनुत्तमम् दृष्ट्वा अयोध्याम् जिगीमिषु पितरम् द्रष्टुमिच्छति इत्युक्तो मुनिनाराजा पूजा हौ इति पूजया, पूजयामास धर्मज्ञो विधिदृष्टे न कर्मणा तथा सम्प्रेषयामास मन्त्रिणम् बुद्धिमत्तरम् शीघ्रम् आनय विश्वेश्च चापं रामाय दर्शय तदोगते मन्त्रिवरे राजा कौशिकमब्रवीत् यदि रामो धनुर्धृत्वा कोट्यामारोपय गुणम् तदा मया मया सीता दीयते राघवाय हि तथेति कौशिकोऽप्याः रामम् संवीक्ष्य सस्मितम् शीघ्रम् दर्शय चापाग्र्यम् रामायामित तेजसे एवम् ब्रूति मुनीश आगताश्चापवाहकः चापम् गृहीत्वा बलिनः पञ्चसहस्रसङ्ख्यका घण्टाशतसमायुक्तम् मणिवज्रादिभूषितम् दर्शयामास रामाय मन्त्रे मन्त्रय ताम्बरः दृष्ट्वा राम प्रजुष्टात्मा बद्ध्वा परिकरम् दृढम् गृहीत्वा वाम हस्तेन लीलया आरोपयामास गुणम् पश्य सखिलराजसु ईश्वराय कर्षयामासे पाणिना दक्षिणेन सह दभञ्जायखिलरुत्सारो दिश शब्देन पूरयन् दिशश्च विदिशश्चैव स्वर्गं मत्तर सतलम् तदद्भुतम् अभूत् तत्र देवानां दिवि आच्छादयन्तः कुसुमयी देवास्तुतिभिरीडिरे देवदृन्दुमयो नेरु नन्द्रतु चाप्सुरोगणः द्विधा भग्नम् धनुर्दृष्ट्वा राजा लिङ्ग रघुद्वहम् विस्मयम् लेभिरे सीता मातरोऽन्तः पुरा सीता स्वर्णमयिम् मालाम् गृहयित्वा मितवक्त्रा स्वर्णवर्णा सर्वभरणभूषिता मुक्ताहारैः कर्णपत्रैः क्वणञ्चरण दुकूलै परिसंवेता वस्त्रान्तर्व्यञ्जितस्तनि रामस्योपरि निक्षिप्य स्मयमाना मुदं ययो ततो ममोदिरे सर्वे राजदारः गवाक्ष जालरन्ध्रेभ्यो दृष्ट्वा लोकविमोहनम् ततो ब्रवीन् मुनिं सर्व राजा सर्वशास्त्रविशारदः भोः कौशिकमुनिश्रेष्ठ पत्रं प्रेषय सत्वरम् राजा दशरथशीघ्रम् आगच्छतु स पुत्रकः विवाहार्थं कुमाराणां स्वदारः सह दूतान् त्वरितविक्रमान् ते गत्वा राजशार्दूल रामश्रेयोन्यवेदयन् श्रुत्वा राम कृतं राजा हर्षेण महता प्लुतः मिथिला गमनाथाय गच्छन्तु मिथिलां सर्वे गजाश्वरसपत्तयः रथमानमे आनय आनयमे शीघ्रम् गच्छाम्यद्यैव माचिरं वसिष्ठ स्वग्रतो यातु सहितो गृभी राममातृ समादाय मुरिर्मे भगवान् गुरुः एवं प्रस्थाप्य सकलं। राजर्षि विपुलम् रथम् महत्या सेनया सार्धम् आरुह्य त्वरितो आगतं राघवं श्रुत्वा राजा हर्षसमाकुलः प्रत्युज्जगामजनकः शतानन्द पुरोधसा यथोक्त पूजया पूज्यम् पूजया मास सत्कृतम् रामस्तु लक्ष्मणे नाशु वन्दे चरणोऽपितुः ततो हृष्टो दशरथो रामं वचनमब्रवीत् दिष्ट्या पश्यामि ते राम मुखम् फुल्लाम्बुजोपमम् पुनेरनो ग्रात् सर्वम् सम्पन्नम् मम शोभनम् इत्युक्त्वा घ्राय मूर्धानम् च पुनः पुनः हर्षेण महताविष्टो ब्रह्मानन्दम् गतो यथा ततो जनकराजेन मन्दिरे सन्निवेशितः शोभने सर्वभोगाढ्ये सदार स सुत सुखी सः शुभे दिने लग्ने सुमुहूर्ते रघुत्तमम् आनयामास धर्मज्ञो रामं सभ्रातृकं तदा रत्नस्तम्भ सुविस्तारे सुविताने सुतोरणे मण्डपे सर्वशोभाढ्ये मुक्ता पुष्प फलान्विते वेदविद्भिः सुसम्बाधे ब्रह्मणे स्वर्णभूषितै सुवासिनीभिः परितो भिरावृते भेरी दन्दुभि निर्घोषे गीतनृत्यै समाकुले दिव्यरत्नाञ्चिते स्वर्ण पीठे रामम् न्यवेशयत् वसिष्ठम् चैव शतानन्द यथाक्रमम् पूजयित्वा रामस्य उभयपार्श्वयोः स्थापयित्वा स तत्राग्निम् ज्वालयित्वा यथाविधि सीतामानीशोभाढ्याम् तारा रत्न विभूषिताम् स भार्यो जनकत्रायात् रामम् राजीवलोचनम् पादो प्रक्षाल्य विधिवत् तदपो मूर्ध् या धृता मूर्ध्निशर्वेण ब्रह्मणा मुनिभिः सदा तथस्तीताम् करे धृत्वा साक्षितोदकपूर्वकम् रामाय प्रददु प्रीत्या पाणिग्रहविधानतः सीता कमलपत्राक्षी स्वर्णमुक्ता विभूषिता दीयते मे सुता तुभ्यं, प्रीतो भव रघुत्तम् इती प्रीते प्रीतेन मनसा सीतां रामकरेऽर्पयन् नमोदयनको लक्ष्मीम् क्षीराद्धीरिव विष्णवे ऊर्मिलां चौरसीम् गन्याम् लक्ष्मणाय ददो मुदा तथैव श्रुतकीर्तिं च पाण्डवीम् भ्रातृकन्यके भरताय ददो एकाम् शत्रुघ्नाय पराम् ददो चत्वारोदार सम्पन्ना भ्रातर शुभ लक्षणः विरेजु प्रभया सर्वे लोकपाला इवापरे ततो ब्रवीत् वशिष्ठाय विश्वामित्राय मैथिलः जनकः स्वसुतोदन्तम् भारतेनाभिभाषितम् यज्ञ भूमि विशुद्ध्यर्थं कर्षतु लाङ्गले न सीतामुखात् समुत्पन्ना कन्यकाशुभ लक्षणा तम् अद्राकमहं प्रीत्या पुत्रेका भावभाविताम् अर्पिता प्रिय भार्यायै शरचन्द्र एकदा नार्लोभ्यागात् विवेक्ते मयि संस्थिते रणयन् वीणां गायन् नारायणं विभुम् पूजितः सुखमासीनो मामुवाच सुखान्वितः शृणुष्वेव वचनम् गोह्यम् तवाभ्युदयकारणम् परमात्मा ऋषि केशो भक्तानुग्रह काम्यया देवकार्यार्थसिद्ध्यर्थम् रावणस्य वधाय च दातो राम इति ख्यातो मायामानु च आश्रेदाश्रितेर्भूत्वा चतुर्धा परमेश्वरः योगमायापि सीतेति वाता वै अतस्तं वेश्मनि अटस्तम् राघवायैव देहि सीतां प्रयत्नतः नान्येभ्यः पूर्वभार्यैषा रामस्य परमात्मनः इत्युक्त्वा प्रयो देव गतिम् देव मुनिस्तदा तदारभ्य मया सीता विष्णो लक्ष्मि विभाव्यते कथं राघवाय दीयते जानकी शुभा इति चिन्ता समाविष्ट कार्यमेकम् अचिन्तयम् मत्पितामहेतु न्यासभूतम् इदम् धनुः ईश्वरेण पुरा क्षिप्तम् पुरदाहादनन्तरम् धनुरेतपणम् कार्यम् इति चिन्त्य कृतं तथा सीतापाणिग्रहार्थाय सर्वेषां माननाशनम् तत्प्रसादान् मनेषेथ रामो राजीवलोचनः आगतोऽत्र धनुर्द्रष्टुम् फलितो मे मनोरथ अद्य मे सफलं जन्म राम सह सीतया एकासनस्थं पश्यामि भाजमानं रविं ब्रह्मा, तत्पादाम्बुदरो ब्रह्म सृष्टिचक्रः प्रवर्तकः बलेश्वत्पादशरीरं धृत्वा भूद्विजाधिप तत्पादपांशु संस्पर्शा अहल्या भर्तृशापतः स एव विनिर, स एव विनिर्मुक्ता पुण्यस्तधिरक्षिता यत्पादपङ्कजपरागसुरागयोगी वृन्दय जितम् भवभयम् जितकालचक्रे यन्नाम कीर्तनपराय जितदुःखशोकाय देवास्तमेव चरणं सततम् प्रपद्ये इति स्तुत्वा नृपप्रादात् राघवाय महात्मने दीनाराणाम् कोटिशतम् रथानाम् अयुतं तदा अश्वानां नियुतं प्रादात् गजानां षट्शतं तथा पत्यीनां लक्ष्ममेकं तु दासीनां त्रिशतं ददौ दिव्याम्बराणि हाराश्च मुक्तारत्नमयोज्ज्वलान् सीता ये जनकप्रादात् प्रीत्या द्वित्रवत्सलः वसिष्ठादिन् सुम्पूज्य भरतम् लक्ष्मणम् तथा पूजयित्वा इथा न्यायम् तथा दशर्थम् नृपम् प्रस्थापयामासु नृपो राजानम् रघुत सत्तमम् सीतामालिङ्ग्य रुदतिम् मातः स्रुलोचनः श्वश्रूषुश्रूषणपरा नित्यम् राममनोव्रत पातिव्रत्यम् उपालम्ब्य पृष्ठ वत्से यथा सुखम् प्रयाणकाले रघुनन्दनस्य भीरिमृदङ्गानकतुर्यगोचर सर्वासि भीरीघतनूर्यशब्द सम्मूर्च्छितो भूत भयङ्करोभूत् इति श्रीमदध्यात्मरामायणयो मामेश्वर संवादे बालकाण्डे षष्ठः सर्गः श्रीसीतारामचन्द्रार्पणमस्तु